ॐ वाजस्पये भवस्व कृष्णो अग्युभ्यां गवस्त्रीभूता देवो देवेभ्याः भवस्वदेहाम्भावोषि मधुमतिर्न इहीरते सोमादाभ्यन्नाम जागृरस्मै ते सोम सोमायस्वाहा स्वाहोर्बन्दर्क्षमन्वेमिष्वाङ्घृतोेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्वाष्टु स्वाहा स्वाशुभसूर्याय दे देवेभ्य स्वा मरीचिवेभ्यो देवाग् रश्मयित्वे दे रेच्छमुपरिपुताम् उपया भङ्गे नहतोसौभप्राणायत्वाभ्यादाय त्वाम् उपयामगृहीतोस्यन्द्रजच्छमघवन् पायिषोमम् उरुक्षराय एघोजलसु अन्धसेद्यावापृथिवी दधाम्यन्दर्दधाम्यर्बन्धरिक्षं सदुर्देवेभिरवरैः <śled> परैष्ठान्दर्जामिमभवन्मादयस्वो स्वाङ्कृतो ऋभिश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनुस्वास्ति स्वाहा त्वां शुभवसूर्जाय देवेभ्यः स्वामरीचिवेभ्यः उदानाय स्वाम् आवायो वायो भूगजुरि वा उपदः सहस्रन्दे नियुतो विश्ववारो उपोतेऽन्धो मध्यमयामि यस्य देवदधिघे पूर्ववेयं वायवे इन्द्रवायो इमे सु उपप्रयोभिरागतं इन्दवो वामुजन्तिः उपयाम ग्रीहीतो वायव वा इन्द्रवायुभ्यान्त्वयिकसे जोनिः सजोकोभ्यान्त्वाम् जो सजो अयं वां मित्रावरुणा सुताः सोमप्रेता वृधा ममे दियश्रुतगुंहवम् उपयाम गृहीतो हि मित्रावरुणाभ्यान् त्वाम् रायाभयपुंसजवापुं सोमदे महव्येन देवाजवसेन गावाः कान्धेनुं मित्रावरुडा जुवन्नो विश्वाहामनवपुरञ्जीमेघतेजो निर्दृताभ्यान्त्वां या वाङ्कषा मधुमतिस्विनाशून्यतावति तया यज्ञं मिविक्षतं उपयामवृहीजोभ्यान्त्वयिकसे जो निर्माध्वीभ्यान्त्वां तं वृत्नथा पूर्वधा विश्वजेमसा ज्येष्ठतादिम्बरीहिकदघुस्पर्भिदं प्रजिजीनं वृजनं दोहसे धुनिमा शुञ्जयन्तमनुया सुबर्धसे उभयामगृहीतो जो त्वयि भतेजो निर्वीरताम्बाह्यवमिष्ठाः चण्डो देवास्वासुप्रभाः प्रणयन्द्वनानिष्ठासि सुवीरो वीरान् व्रजनजन् बरीश्यबिराज स्पोषेन यजमानम् संजगमानो दिवा वृदिव्या शुक्राः शुक्रशो जिवा निरस्ताः षण्डाः शुक्रस्याधिष्ठानमधि अच्छेन्नस्य के देवसोमसुवीर्यस्य राजोगस्य ददिता राः स्यामो सा प्रथमा संस्कृतविश्ववारासप्रथमो वरुणो मित्रोऽग्निः सप्रगमो बृहद्वधिष्ठिवित्वां सन्मा इन्द्राय सुतमायुहोतस्वाहा श्रीं बन्धुहोत्रामधोजाः विष्टाजाः विपीताः सुहृतार स्वाहायाग्नीतो अयं वेरस्योदयक्तिगर्भाज्यो दुजरायूरजोऽभिमाने इमम वागुसङ्गमे दुर्यहिलभृरामतिभिरिहन्ति उपयामगृहीतो जिमकारत्वा मनो नदे गुहवने गुजग्मं विपहात्यावनुद्रवन्ता आयाः सजावितुविम्नो अस्याश्रीणीतादिसङ्गवस्तावेगते जोनि प्रजाहा बाह्यवमिष्टो मर्गो देवास्वा मन्दिपाः प्रणयन्त्वनाहि सुप्रजाः प्रजाः प्रणयन व्रजनयन्त्व जगिरायत्वेन जनं सञ्जमानो दिवा निरस्तो मर्गो मन्दिनो दुष्ठानमहि ये दे देवासो दिव्ये कादशस्तव्य दिव्या मध्ये कादशस्थो असुखितो महिनैकादशस्ते दे देवासो यत्नमिमञ्जुखध्वम् उभयामगृहीतोस्याग्रय नोषि स्वाग्रजनाः पाहि यत्यं पाहि यत्यपदिं विश्वित्वामिन्द्रियेण पाद विष्णुन्त्वं बाह्यविधवनानि पाहि सोमाः पवगे सोमाः पवगेस्मै ब्रह्मणेस्मै क्षत्रायास्मै शुन्वदे यजमानाय पवद इव ऊर्जे पवगे द्व्य द्या ओघविभ्यः पवगेद्यादाविजीविभ्यां भेषुभूताय भवदे विश्वेभ्यता देवेभ्य एव ते जोनिर्विसेव्यता देवेभ्यः उभयामगृहीतो हीन्द्राय त्वा वृहद्वदेभ्य स्वद उक्ताभ्यं गृह्णामि यत इन्द्र वृहद्वयस्तन्मयित्वाभिष्णवे जो भटेजो निरुक्तेभ्य स्वादेवेभ्य स्वादेवाभ्यं यज्ञश्चायुगैर्नामि मित्रावरुणाभ्यान् त्वा देवाभ्यं यज्ञशायुगैर्नामीन्द्राय स्वा देवाभ्यं यायुगेर्नामीन्द्राभ्यान्त्वा देवाभ्यञ्जज्ञ चायुगेर्नामीन्द्रा वरुणाभ्यान्त्वा देवाभ्यं यज्ञायुगेर्नामीन्द्रा बृहद्पविभ्यान्त्वा देवाभ्यञ्जज्ञस्य युघेर्नामीन्द्राविष्णुभ्यान्त्वा देवाभ्यञ्जज्ञस्य युघैर्नामी मूर्धानन्दिवोऽविं पृथिव्या वैश्वानरमृत आजातमग्मु <coughs> कविपुंसम्राजमविधिञ्जनानामासन्नावाचनयन्त दे स्वाहा म गृहीतोध्रुवोर्जुवध्रुवारान्ध्रुवसमुच्युता रामचुरकृतम एव तेजो नृवैता नराजस्तां ध्रुवन्ध्रुवे नमनदाब्बाजाजो मम वनयामि अधान इन्द्र इद्विषो जवत्नाहाजमनधरतुम् जत्ते जगत् तन्दते अग्न सुर्वच्युरोधिगणजोरुवस्थादु अध्वर्योर्वापरिवाजाः पवित्रात् तन्दे जुहोमि मनसा वर्वे सहा ्याणाय मे प्रचोदाव्रजाहे पावद्व्यानाय मे प्रचोदा व्रजाहे पवस्वोदानाय मे प्रचोदाव्रजे पवस्ववाचे मे वर्चोदाव्रजसे पवद्व्यां मे व्रचोदधौ व्रजसे पवेधामात्मने मे वर्चोदाव्रजसे पवस्पौजसे मे व्रचोदाव्रजसे पवस्पायुखे मे वर्चोदाव्रजसे पवस्वविश्वाभ्यो मे प्रजाभ्यो व्रचोदधौ व्रजधे पवेधाम् को जि कदमु जिवस्यासि को नामासि यजते रामामन्महि जन्त्रासो मेनातीदृकामु भूर्भुवाः स्वाहा, स्वाहा प्रजाः प्रजाभिः त्याग्नसुवीरो वीरैः सुपोखः पोखैः उपयामगृहि तुसि मघवेत्वोपयामगृहि तु हि माधवाय त्वया मगृहितो शुक्ताय त्वो पया मगृहितो हि शुचयेत्त्वपया मगृहि तुसि नभजेत्मोपयामग्रहितो नवस्याय त्वया मरुहि दोषिभेत्वो वयामगुरे दोषूर्येत्वो वयामवही रोधि सहसे त्वो वयामवृहितोदि रहस्यायत्वो वयामरे तपसेत्वो वयामवृहितोदिवस्यायत्वं त्वयामवृही दोष्यग् मुहपथयेत्त्वाम् इन्द्राग्नि आगत पुंसुतं गीर्भिर्नभुवरेण्यम् अस्य पादन्ध्येखिता उपयामगृहीतोजीन्द्राग्निभ्यान्त्वयिकते जोनिरिन्द्राग्निभ्यान्त्वाम् आघादे अग्निमिन्धे त्रिनन्दिवरेहिरानुघस्तु येघामिन्द्रोजुवासखाम् उपयामगृहीतोऽग्नीन्द्राभ्यान्त्वयिवदेजो निरग्नीन्द्राभ्यान्त्वाम् ओमासचरिगणीन्द्रजो विश्वे देवास आगतो दास्वाग्मुषो दाशुखाः सुपयामगृहीतो विश्वेभ्य सा देवेभ्य एव देजो निर्विश्वेभ्य विश्वेदेवास आगतशनुताम इम गूहवम् एदम्बर्हिर्निकीरतो उपयामगृहीतो विश्वेभ्य सा देवेभ्य एहतेजो निर्विश्वेत्य सा देवेभ्यः दे इन्द्रमरुत्व इह बाहितो मञ्जदाजार्जाते अपि तव प्रणीति तव शूरधर्मन्नाविवासन्ति कवयः सुयत्याः उपयामगृहीतो जीन्द्राय त्वा मरुत्वद एव तेजो निरिन्द्राय त्वा मरुत्वति मरुत्वन्दं विभवम्बा विश्वासाहमवधे नूतनायोग्रगुं सहोदामि हदु हुवे उपयामगृहीतो जीन्द्राय कामरुपद एहतेजो निरिन्द्राय कामरुत्वसे उपयामगृहीतो जिमरुतां त्वसे सजोघा इन्द्रसगणो सो मरुभिः सोमं बिबव्रत्राशूरविद्मान्नु जहिरतूमरपमृधोनुरस्वाधा भयं गृणु विश्वतो नः उपयामवेहितो जीन्द्रायत्मा मरुपद एघतेजो निरिन्द्रायत्मा मरुत्वदे मरुत्वाम् इन्द्रबृहभूरणाय पिबासो मम मुखं मदाय आहेन्दज्वजरे मध्वेन्द्र गुणराजानुप्रदिवत्सुतानां उपयाम गृहीतो जीन्द्राय त्वा मरुत्वद एहतेजो महा इंद्रो जन प्रातरहा अमीना हा, सहो भी अस्मदृधे गीर्जा वृजु सुकृतर्तूत उपयामृह जी महें जो निर्म निर्महन्द्रय ठा महाम् इन्द्रोज ओजसापन्युवृत्तिमाम् इव तोमैर्वृधे उपयामगृहीतो विमहेन्द्राय त्वयि भजेजो निर्महेन्द्राय त्वाम् उदुत्यन्यातवेद सन्देवां वहन्ति केतवहम् द्विजेद्विपाय दूर्जगुस्वाहाम् पितरन् देवानामुदगादनी कञ्जक्षर्मणस्याग्नेः आप्याद्यावाजीवि अन्तर्क्षगु सूर्य आत्मा जगतस्तुवस्त स्वाहा अग्निनय सुभधाराय अस्मान् विश्वानि देवभयूनान् यूयोध्यस्मज्जुहुराण मेनोहूष्ठन्दे नमपुक्तिं विदेम स्वाहा अयन् नो अग्निपरिवत्रेणु त्वयं मृगाः पुर एदु ब्रवृन्दन् अयं रूपेण वो रूपमभ्यागान्तु वो विश्ववेदाबिभजतु हृदयवदाप्रेतचन्द्रदक्षिणाभिस्महाभ्यन्तर्चस्व सदस्यैः ब्राह्मणमद्यभिधेयं वि श्रीमन्तं वैत्रमत्य मृगि मार्गेयपुषु अस्मद्राता देवद प्रदातारमाविशतु अग्नये त्वामह्यं वरुणोददातु सो मृग त्वमहीयायुदात्र एरिमयो मह्यं प्रविग्रहीते रुद्राय त्वामयं वरुणोददातु सो मृग त्वमयीय प्राणोदात्र एरिवयो मह्यं बृहद्भजये त्वामयं वरुणो ददातुजो मृग त्वमहीय त्वगदाच्च एरिमयो मह्यं वृग्रहीत्रे जमाय कामोदाता कामः प्रतिगृहीता कामै दत्ते इति सप्तमः